ष्टो धितः सोमो हिन्वेपरावति विप्रस्य धाराया कविः अयम् देवेषु जाग्रे विश्रुतयेति पवित्रः सोमो जातिविचर्षणिः स नः पवस्व वाजयश्चक्रानश्चारु मध्वरम् धरिलिक्ष्मावि स्तनो भगाजवाजवेवि प्रावीरः सदा वृधः सोमो देवेश्वायमजे स्नो अद्यपसत्तये क्रथुविद्वाधुविक्तमः वाजुञ्जे ऋो बृहदे सपवस्रमदायकण्डितक्षादेवपीतये इन्द्रलीन्द्राजपीतये समो अर्षाभिदूत्या अन्तमिन्द्रायतोसे देवान्सखिभ्या वरम् उदा त्वामारुणम् वयम् गोभिरञ्जमो मदायकम् विनोः अत्यो आत्रयोः पवित्रामक्रमे द्वादीदुरन्नयामानि इन्दुर्देवेषु पत्यते मे सखायो अश्वरण् क्लीळन् समत्याविम् इन्द्वम् भावानुषत त्रया पवस्वधारयाजया विलक्षसे इन्दोस्तोत्रे सुबीर्यम् वासग्रम् देववी जयेत्या सक्ल्या इव क्षरन् परिष्कृता स इन्द्र गो योषे पदित्या वायुम् सोमा सिक्षता ये ते सोमा स इन्द्रवाप्पयः स्वन्तश्च मूषुकाः इन्द्रम् वर्धन्ति कर्माभिः आधावता सुगस्य शुक्रागृह्णीतमन्थिना गोभिः श्रीनीलमत्सरम् वधनञ्जयप्रयन्ताराध सोमहः अस्मभ्यम् सोमकादि एतम् रेचन्ध्यम् पबामानम् दशक्षिपाः इन्द्रायमत्सरम् मदम् अद्या सोमस्वकृत्यया महश्चेदभ्या वर्धत मन्दानमुद्वेषायते कृदानीतस्य कृत्वा चेतम् वेद सुदर्हणा ृष्टश्चायते आतो वा इन्द्रियो रसो भद्रस्वहस्रभूवत् उक्थम् यतस्य जायते स्वयम् कविर्लिधर्तरिभिप्रा जरत्नामिच्छति यदि मन् व्यज्यते धियाः सुशासतो रयीनाम् वा येश्वतामिव भरे एष जिज्ञुषामसि न्त्वाम् सतस्तेरुमहो दिवः चारुम् सुकृत्यजे महे संवृत्ततृष्णमुख्यम् महामाहिमृतम्मतम् श्रुतम् पुरोरुक्षणित्वारयिमभिराजानम् सुक्रजो दिवः सुवर्णोहव्यर्भारते स्वायत्सदृशे साधारणम् रजस्तुरम् गोपामृतश्रविर्भरत् अधाहिन्वालयिन्द्रियञ्जायो महित्तमानसे अभिष्टिद्विचर्षणिः पवस्वृष्टिमासु नोपा मोर्मिम् दिवस्परि अलक्ष्मा वृहदीर्षाः ला पवस्वधारादुजागा उपानो गृहम् घृतम् वस्वधाराय यज्ञेषु देववीतमः अस्मभ्यम् वृष्टिमा भावूर्जेव्या अव्ययं पवित्रम् धावधाराय देवासहसृणवह्निकम् अपमानोऽशिष्यद्रक्षाम् स पजलज तत्र वद रोचयम् रुचाः सुष्माशीरते सिन्धो रोर्मे वस्वनः बाणस्य चोदया पविम् सवेदुदीरते हरिम् हिम्पञ्चद्रीभिः पनम् दुःसुतम् आबवस्व मदिन्दम पवित्रम् धारागवे अर्कस्य यो निमासदम् सर्वस्वदिन्दमगोभिरञ्जागो अद्विभिः किं तीन्द्रायपीतये अध्वर्यो अद्रेभिश्वसम् सोमम् पवित्रासेज मेहीन्द्राय पातवे दिवः पीजोषामत्तमम् सामनिन्द्राय वज्रिणे सुनोतामधोमत्तमम् अवत्ययिम् दो अन्धसो देवामधोर्व्यास्मदे पमानस्य मरुताः त्वम् हि सोमवर्धयन् सुसोमदाय भूर्णाय ऋणन् सोतारामूतये अभ्यर्णविलक्षणपवित्रम् धारा या सुतः अभिवाजमुतश्रवाः पथे दोक्षः स न जरद्वाजम् नो अन्धसा सुवानो अर्णपवित्रा तव प्रत्नेऽभिरद्वाभिरव्यो वारे परिप्रियः सहस्रधारो यात्तमाः सर्वमीङ् खयेन्दो नदानमीङ्खय दश्रमीङ्घय सुष्माबिन्दवेषाम् गुरोः दजनाना यो अस्मादि सति शतन्न इन्दभूतिभिः सहस्रम् वासुचीना भव स्वमम् भयद्रयिः सुष्मासो अस्थो रक्षो बिन्दो अद्रिवः नुतस्वजाः परिस्पृधाः अजानि लग्निरोचसारथसङ्गेतने हि ते स भारिभ्युषा हृदा अस्य व्रतानिनाधुषे पवमानस्य दूढ्या लुजयस्त्वा पृथन्यतिमदच्युतम् हरिम् नदीषु वाजिलम् इन्दुमिन्द्रायमस्वरम् अस्य प्रज्ञामलद्युतम् शुक्रम् तु दुःखे अह्रयः वयः सहस्रसामृषिम् अयम् सूर्या इव भदृगजम् सराम् सिधावति सप्त प्रपदादिवम् अयम् विश्वानि तिष्ठति कुना नो भुवनोपरि सोमो देवो न हरिणो देवगीतये वाजाङ्गरिषधि गोमातःनयिन्दविन्द्रयो यमीयवन्नो अन्धसा पुष्टम् पुष्टम् परिस्रव सोमविश्रा च सौभगा इन्दो यथात वास्तवो यथा ते जातमन्धसः प्रिये सदः उत नोजितः स्वमित्पः स्व सोमान्धसा माक्षुतान्तिोमभीत्य सहस्रचित् परिसोमा नृतम् रहतार्षति विघ्नम् रक्षा वयो यत् सोमो वाचमर्षति सतम् धाराः पश्युवाः निन्द्रस्य सख्यमा विशन् अमित्वायोषोदसचारण्यकन्यानुषत मृजसे सोमसातयेन्द्राय विष्णवे स्वादिन्दोपरिस्रव श्रेम् श्रोत्रेम् बाह्यम् वसहृते धारासश्च तो दिवो नयन्निष्टजाः अच्छावाजम् सहसृणम् अभिप्रयाणिका व्या विश्वाचक्षाः नो अर्हति हरित्वञ्जान आयुधा समर्णान आयुभिरिभो राजेव संव्रतः श्येनो सनो सुशीरति स नो विश्वाधिवो वसूतो पृथिव्याधिनयन्दवाभरा तरत्स मन्दि धावति धारासु तस्यान्दसः तरत् स मन्दि धावति उश्रावेदसूना वर्तस्य देव्यवसः तरत् स मन्दि धावति सहस्रयोः पुरुषं चोरा सहस्राणि दद्महे आययोस्त्रिंशदन्तना सहस्राणि च दद्बाहे तरसमञ्जीधावति पवस्वगोचित् स्वचिद्दिष्वचित्सो मरण्यजित् प्रजावद्रत्रमाभर पवस्वाद्योदाभ्यः पवः स्वौषधीभ्यः पवस्वधिषणाभ्यः म् सोऽहमपवमानो विश्वानि दुरिता तारा कविशीदनिबिषि पपमानस्वर्विदोजायमानो भवो महाय इन्दो विश्वा अभिदासि गायत्रेण गायच पमानम् वितर्षणि इन्दुम् सहस्राक्षसम् तन्त्वा सहस्रचक्षसमथो सहस्रधर्मसम् अदिवारामपाविषुः अदिवारानो अशिष्य तत्कलसाम् अभिधावति इन्द्रस्य हाद्याभिषन् इन्द्रस्य सोमराधशेषम् पावस्व वितर्षणे प्रजावद्रे दाभर याभीति परिश्रमयस्तो मदेष्वा अवाहन्नभतीर्नव पुरः सद्य इच्छाधीये दिवो दासाय संवारम् असज्यम् दुर्वसंयतुम् परेणो अश्वमस्वभिद्वोमादिन्दो हिरण्यवत् क्षरा सहस्रिणीरिषाः पवमानस्य ते वयम् पवित्रमध्यम् दतः सखि त्वमावेणीमहे ये ते भिक्षरं तिधारया विधाराय तेभिर्नः सोममृळय स नः पुनानः आभारलयम् वीरवजीमिषम् एतमोत्यन्दसक्षिपा भ्रजन्ति मातरं मातरम् वीरख्यता स्वमिन्द्रे नोतवायुना सुतये पवित्रा सूर्यस्य रश्मिभिः स नो भगाय वाजवे कूष्णे पवस्व मधूमाने वरुणे च ृच्छाते जातमन्धसो दिविषूम् यादेव वग्रम् धर्म महिश्रवाः येनाविश्वान्यद्युम्नानि मानुषाणाम् शिषा सन्तो मनामहे स न इन्द्राय यज्ञ वेवरूणाय मनुज्याः परिभो वित्परिश्रव कुपोलुजातमप्नुरङ्गोभिर्भङ्गम् परिष्कृतम् निन्दम् देवायाशिषुः मेद्वर्धम् तु नो गिरो वत्सम् इश्वरीव हि इन्द्रस्य हृदंसनेः अर्षाणस्वासङ्गवे दुक्षस्वाभिभ्युषीमिषम् वर्धासमुद्रमुख्यम् पवमानो अजीजनदिवश्चित्रम् रतम् जतुम् ज्योतिर्वैश्वानरम् बृहत् पवमानस्य तेरसो मदो राजन्नः विवारमव्यमर्षति पवमानरसस्तपदक्षो विराजिज्युमान् ज्योतिर्विश्वाम् स्वदृशे यस्ते मधोवरेण्यस्तेनाहापभस्वान्धसा देववीरघशंसहा जग्निर्भत्रमाभित्रियम् सर्वाजम् दिवे दीवे घोषाभो अश्वसा स्वं विश्व हर्षो भवसु भस्वाभिर्न धेनुभिः श्रीलाञ्चनयो नि स्वयाभिथेन्द्रम् वृत्राजहन्त वे मृवांसम् रहीरवः सुवीरा सोमयम् धनाजयेम सोममेध्वा पुरानो वर्धनो गिरा होदासस्तवावसा स्याम आमुरा सोमव्रजेषु जागृहि घ्नन् पावसे मृधो वसो मो अरावणः गच्छन्निन्द्रस्य निष्कृतम् महो नो राय आभरपवानुजहे मृथाः राश्व वीरभजसाः नत्वा सतञ्चलकृतो रामामीनन् यत्पू नानो माघस्य अवस्वेन्दो विषा सुतः कृनो यशसो जने विश्वापद्विषोजिः अस्य ते सख्ये वयम् दवेन्दो जिम्नवुत्तमे सा सह्यामावृतन्यतः या ते भीमान्यायूधा दिग्मानि सन्ति धूर्वाणि रक्षासमर्जनो निदः एते आशग्रविन्दवस्थिरः पवित्रमासवाः विश्वान्यभिसौभागा जिघ्नन्तो दरिता पुरसुगातोकायवादिनाः तनाः कृण्वन्तो अर्वते कृण्वन्तो परिभोगवेभ्यर्णन्ति सुष्ठुतिम् लिलाभस्मभ्यम् संयतम् व्यम् सर्वदायात्सु दक्षो गिरिष्टाः श्येनो न यो निमासदत् शुभ्रमन्दो देववातमत्सुधूतो नभिः श्रुतः सुदङ्गिकामः सु पयो निः से धारामधस्तुतो चक्रमिन्द्रभूतये पवित्रमासदः सोऽर्षेन्द्राय भीतये तिरोमाण्यव्यया श्रीधन्यो नाम नेष्वा त्वमिन्दो परिश्रमस्वादिष्टो अङ्गीरोऽभ्यः हरिवोरिभृतम् वयाः अयम् विचर्ष निर्हृदः पवमानः स चेत ह्यन्वान आप्यम् बृहत् एष वृषा वृषौ दतः निदासुषे आपवस्वत हस्विणम् लिङ्गो मन्दमश्रिणम् पुरश्चन्द्रम् लेखस्य परिषिच्यते मर्मृज्यमान आयुभिः गुरुकायः कविक्रादुः सहस्रो दिशता माघो विमानो न च सः कविः इन्द्राय पवते मदाह गिराजातजिगः सुदयन् दुरिन्द्रायधीयते निर्यो मालसुतो नृभ्यः सोमो वाजामिवासरत् चमोषु रथे युञ्जन्ति जातवे श्रीणाम् सप्तधीतिभिः संसोतारोधनस्तुतमासुम्बाजा जातवे हरिम् हिनोत वाजिनम् आविषम् कलशम् सुतो विस्वार्ढम् अभिश्रियाः सूरो न गोषो तिष्ठति आत इन्दो मदायकम्पयो दुहम् जायवाह देवा देवेभ्यो मधु आदः सोमम् पवेत्रा सृजता मधु मत्तमम् देवेभ्यो देवश्रुत्तमम् ोमा अदृक्षतगृणाना श्रवसे महे मदिन्दमस्य धाराया अभिगव्यानि भीतयेडृम्णा पूनानो अर्षसि सनद्वायः परिश्रम पूतनो गोमतीर्षो विश्वार्णवरिष्टुभाः गृणानो जमदग्निना अवस्ववाचाग्र्यसोमचित्राभिरूधिभिः अभिविश्वानिकाव्या त्वम् समुद्र्या अपोऽग्र्यो वाचीरयन् अवश्व विश्वमे जय स्वभ्ये मा भुवनागवेमहिम्नेशोपदस्थिरे तुभ्य परिषन्ति सिन्धवः प्रते दिवो न भृष्टयोधारायन्त्यसश्च ताः अभिशुक्रामोपस्थिरम् इन्द्रायेन्दुम् पुनीत नो ग्रन्दक्षाय साधनम् ईशानम् भीतिराधसम् पमानरतः कविः सोमः पवित्रमासदत् दधः दद। सोत्रे सुवीर्यम् वसहस्रिणम् जयुन्दोम सुवीर्यम् अस्मे श्रवांसि धारय इषमोजम् गबिम्बस इन्द्राय मत्सरिन्द्रमः समोऽश्वानिषीदसि सुदीन्द्राय विष्णवेसोमः कलसे अक्षरत् वधूमा हस्तु भाजवे एते अश्रिग्रमासवो जिह्रांसि बभ्रवाः सोमा आतस्य धाराया इन्द्रम् वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् अवघ्नन्तो अरावणः सुत अनुस्वमानजोऽभ्यर्षन्ति भभ्रवाः इन्द्रम् गच्छन्त इन्दवः अयापावः स्वधारयाजयासूर्यमरोचयः इन्मानो मानोषीरपः अयुक्तसूरजेत सम्पवा मानो मनावधि अन्तरिक्षे न जातवे उत च हरितो दशदूरो अयुक्तजातवे इम् त्वरिम् रयिति ब्रुवाङ् अरीतो वाजवे सुतङ्गिरलिङ्गायवत्सरम् अव्यो वादेषु सिञ्चत पवमानविदारयिमस्मभ्यम् सोमदुष्टरम् योधूना सो मनुष्यता अभ्यर्डदहस्रिमम् रयिङ्गोमन्दवशिनम् अभिवाजमुतश्रवाः ोमो देवो न सूर्योर्द्रिभिक्पवते सुतः दधा नः कलशे रसम् एते धामाण्यार्या शुक्रार्गस्य धाराया वाजङ्गोमक्षरन् सुदा इन्द्राय वज्रिणे मम धूमत्तमो राजे अर्ष पवित्रा मधोजो देहे पीतमः तमीन्द्रजम् चायमोहरिम् नदीषु वासिनम् इन्दुमिन्द्राजवत्सरम् आपवत्सहिरण्यवदस्वा वत्सोमभीरवत् वाचम् गोमम् तमाभार हरिवाजेन वाजयव्यो वाजे कृषिञ्चत इन्द्रायमधूमत्तमम् कविम् रजन्ति मर्जीभिर्विप्राः मृषा कलिक्रदर्शति लषम् धीभिरप्तुरम् सोमामृतस्य धारया मधे विप्राः समस्वरन् अपस्वदेवायुषगेन्द्रम् गच्छतु ते मनः वायुमारोहधर्मणा अपमानयितो सेलयम् सोमस्वय्यम् यः स मुद्रमावीश अपघ्रण्डावसे पृथक् प्रतिवित्सो ममत्सरह मृदः स्वादेजनम् अपमानानधृक्षत सोमाः शुभ्राशयिन्दवः अभिविश्वाहाधिकाव्याः अपमानास आसवः शुभ्राः पुराणसोमधारयेन्दो विश्वा अपस्रुधाः जहि रक्षाम्सि सुकृतो अपघ्नान् सोम रक्षसोऽभ्यर्षकणि क्रदते जिबन्तम् सुष्ममुत्तमम् अस्मेवसू निधारय सोम दिव्यानिपार्थिव इन्दो विश्वानिवार्या ध्युमासि वृषा देववृषौ व्रतः धर्माणि दधिषे वृष्टस्ते वृष्टम् दो वृषा वनम् वृषा मदाः सत्यम् वृषम् वृषेदसि अश्व न जग्रथो वृषासङ्गायिन् दोसमर्वातः पिनो राजे दुरोधि असृक्षदप्रवाजिनो गव्या सोमासो अश्वजा शुक्रासो वीरजा समाह शुम्भमानालाजनिर्विद्यमानागभस्त्योः अमन् देवारे अव्यये ते विश्वा दासुषेवसु सोमा दिव्याणि पार्थि वामान्तरिक्षा पवमानस्य विश्वभिः प्रथे सर्गादृक्षता सूर्यस्येव नश्मयाः केनम् गण्वन् दिवस्परिविश्वारूपाभ्यर्षसि समुद्रसो वकिन्दसे हिम्बानोवाच विश्वसि पमानविधर्मणि अत्रा देवो न सूर्याः इन्दः पविष्टचेतनः प्रियः कवीनाम् मधी सृजदस्वम् रथीरिव ओर्मिर्यस्ते पवित्रा देवावी पर्यक्षरत् सीदम् ऋतस्य योनिमा सनो अर्डपवित्रा मदो यो दे पवीतमः इन्दमिन्द्राय पीतये इषे पवस्वधाराया मृज्यमानो मनीषिभिः इन्दोरुचाभिगायैः पुनो वरी वस्कृद्योर्जम् जनाय गणः हरे सृजान आशिरम् पुनो देववीतजगिन्द्रस्य यायनिष्कृतम् विधानो भाजभिर्यतः हिन्बा सिन्दवोच्छ्रा समुद्रभासवाः धिया जूता सिक्षत अजानास आजभो वृथा समुद्रबिन्दवः पद्मन् कृतस्य योनिवा परिणो याह्य स्वयुर्विश्वामसोऽन्यो पतञ्जोभिः यस्य मुद्राहीतः आयद्योनिन्सुहृदस्रीदधिप्रचेतसः अहिवेदा लोषते यक्षन्त्य प्रचेतसः मज्जन्त्यविचेतसः इन्द्राजेन्द्रो मरुता देवमधुमत्तमः मृतस्य योनिवासदम् रसन्ताप्रावचो विदः परिष्ण्वन्ति वेदताः सन्ता मृजन्जमाः रसन्दे मित्रोर्जवापिबन्दिमरुणः कवेमानस्य मरुताः त्वं सोऽमपि पश्चिदम् पुनो वाच मिष्यसि इन्दोः सहस्रफर्णसम् उतो सहस्रफर्णसम् वाचम् सो मम कुवम् पुनानयन्तवाभर पुनयन्तवेषाम् पुरोतजनाम् यः स मुद्रमावीश न विद्युद्या विचारिष्टो भा कृपा सोमाः शुक्रागवासिरः हिन्वानो हेतृभिर्यतः वाचम् बाध्यक्रमेत् सीनम् तो मनुषो यसा पृथक्सो वस्वस्तये संलग्मानो दिवः अवस्वसुर्यो स्वसूर्यो दृशे भद्रह्णापि वातशमनाः ओ परिः ओन्वन्दि यस्वसारो जामयस्पतिम् महाविन्दुम् महीयुवाह पनरुचारुचा देवो देवेभ्यस्परि ये श्वामसोऽन्यामीश आपमानतुष्टुतिम् वृष्टिम् देवेभ्यो दुवाह ऋषे पावस्वसंयतम् ृषासि भानुनाद्युमन्दम् त्वा हवामहे पवमानस्वाध्याः आपवस्व सुवीर्यं मन्दमानस्वायुध युवोश्विन्धवागहि त्यपरिच्यसे विद्यमानो गभस्त्योः तृणा सोमाहाय स्वमत्त्वपामानाय गायत महेधसा चक्षुषे यस्य वर्णम् अधस्तुतम् हरिम् हिन्वम् च त्रीभिः भी इन्दुमिन्द्राय भीतयेः तस्या चे वाजिनो भयम् विश्वाधनानि निषा पवस्वधारया मरत्वा तेजवत्सरः निःस्वादधा नवोजसा हन्त्वा धत्तारर्मोन्यो ओ पवमानस्वदृहम् इन्द्रे वाजेषु वाचिनम् अयाचितो विपानया हरि पवस्वधारया इदम् वाजेषु चोदय आनायिन्दो महिमिहम्भवस्व विश्वदर्शतः अस्मभ्यम् सोमगाद्वित् आकलसा अनूषदेन्दोदाराभिरोचसा एन्द्रस्य पीतये पिश दे यस्य देवभ्यम् रसम् तीव्रम् दुहम् च त्रिभिः सवस्वाभिमासि राजा मेधाभीरीयते पमानो मनावधि अन्तरिक्षेण जातवे आना इन्दो सदग्विनम् गवाम् पोषाम् स्वस्य महाभगतिमूतये आनः सो वसहो युवो धूपन्नवर्चासेफल सुश्वानो देव वीतये अर्षाः सोमद्युमत्तमोभिद्रो ना निरोपते सीदम् धेनोन योनिवा अप्सा इन्द्राय वाजवे मरूणाय मरुध्याः सोमो अर्षति विष्णवे इषम् तोकाय नोदधस्मभ्यम् सोमविश्वदाः आपभस्वसहस्रणम् ये सोमाः सत्वरावधि ये सुन्विरे ये वादः सर्जनावधि य आजीकेषु कृत्वा श्रिये मध्ये पस्त्यानाम् ए वा जनेषु पञ्चसु एना वृष्ट्यम् दिवः स्परिपवन्तावासुवीर्यम् सुवारादेवास इन्दवः हर्यतो हरिर्गृणानो जमदग्निना हिन्वानो गोरथित्वसि प्रशुग्रासो वजोजुगो हिन्वानासोमसप्तायः श्रीनाना अप्सुरञ्जत अन्वासुतेष्वा भुवो हिन्विरे देवता स पावस्वानया रुचा आदेलक्षम् वयोभुवम् वह्निमज्जारिणीमहे पान्तमापूरुस्पृहम् आ मन्द्रमावरेण्यमामि भ्रमानीषिणम् पान्तमापूरुस्पृहम् आदयिमासु सेतुनमासुक्रतो तनोष्वा पान्तमापूरुस्पृहम् अवश्विश्वदर्शनेऽभिविश्वानि काव्याः सखा सखिभ्येभ्याः ताभ्याम् विश्वस्य राजशिये पवमानधामानि प्रतीचीसोः मतस्थतोः परिधामाः निजानीते त्वम् सोऽमासि विश्वताः अपमानऋतुभिः कवे पव स्वजनजन्निषोऽभिविश्वानिवार्या सखा सखिभ्यभूतये नव शुक्रासो अर्चयो दिवः स्पृष्ठे विदन्वते पवित्रम् सोमधामाभिः पवेमे सप्तसिन्धावप्रसिषम् सोम सिस्रुते तुभ्यम् धावन्ति धेनवाः रसोमजाहिधाराया सुत इन्द्राय मत्सरः तथा नो अक्षीतिश्रवाः समुत्वादिभिरस्वरम् हिन्वती सप्तजामजाः विप्रमाजाभिवस्वतः मृगन्दित्वा समर्ग्रुवो ये जीरावधिष्वणि रेभोजदज्रसेवने पवमानस्य ते केवजयम् स्वर्गा असृक्षत अर्वन्तो नस्रावस्य वा अच्छाकोशम् मधस्तु समसृग्रम् वारे अव्यये आवावसन्तधीतयाः नवोऽस्थङ्गाभोनधेनवाः अग्मन् ऋतस्य योनिवा णा इन्दो महेरणापो अर्षन्ति सिन्धवः यद्दोभिर्वासयिष्यसे अस्य ते सख्ये भयमियक्षन्तस्तोतजः इन्दो सखि त्वपुष्पसि आपस्व गविष्टये महे सो मनुजक्षसे एन्द्रस्य शतरे विश ज्येष्ठभुग्राणा विन्दवो ज्येष्ठः यद्वासङ् ख्यस्वग्जिगेत य वुग्रेभ्यश्चितो यीयाच्छूरेभ्यश्चिच्छूरतनः भूरिभ्यश्चिन्मं हीयान् पुंसो वसूरयेषकस्य साता तनूनाम् वृणीमहे सख्याय वृणीमहे युज्याय अग्नायो षिपवसः सुवोर्जमिषम् च नः काले वाधस्वधुत्सुरा अग्निर्षि पवमानः पाञ्च जन्यः पुरोहितः त्वमीमहे महाघजम् अग्नेपव स्वपा अस्मे मर्जः सुवीर्यम् दधत्रयम् मयिकोषम् पपामानो अधिःसृहो जर्षतिसृष्ठुतिम् सूरो न विश्वदर्शतः समन्मृगान आयुभिर्पयस्वान्प्रयासेहितः इन्दुरत्यो विचक्षणः पपामानरतम् मृहच्छुक्रम् ज्योतीरजीजनत् कृष्णातमाम् जङ्घणत् पबमानस्य जङ्घ्नतो हरेश्चन्द्राः सृक्षत वीराजिरसो दिशः पबमानो रचितमशुभ्रेभिः शुभ्रसस्तमः हरिश्चन्द्रो मरुद्गनः पबमानो व्यसभद्रस्म्यभिर्वा जसामः रथः सोत्रे सुवीर्यम् तसो वान इन्दुरक्षाः पवित्रमद्यव्ययम् पुलानेन्दुरिन्द्रवा एष सोमो अधित्वसिगवाङ्ग्रे लद्यद्वीभिः इन्द्रम् मदा यजो हूमत् यस्य ते ज्युम्नवद्वयः पवमानामृतम् दिवः तेन नो मृळजीवसे पुंसोमासिधारयर्मन्द्रवो जिष्ठो अध्वरे पव स्वमम् त्वम् सुतोऽनुपादनोदधन्वान्म शरिन्द्राय सूरिरन्धसा त्वम् सुष्माणो अद्रिभिरभ्यर्षकलिक्रजत् युवन्तम् सुष्मामुत्तमम् इन्दर्हिनुमानोऽर्षति तिरोवाराण्यव्यया हरिर्वाजमचिक्रजत् इन्दोऽव्यव्यामर्षसि विश्रवांसि विसौभाग विवाजान्समकोपतः आनायन्दोषदर्मिणम् जयङ्गोमन्तमश्विनम् भरा सोमसहस्रिणम् पमाला स इन्दवस्थिरः पवित्रा वासवाः इन्द्रम् यामेऽभिलासत कगुहः सोम्योलस इन्दुरिन्द्राय भूर्यः आयुः पावत आरवे इन्वन्दिसो नमुस्रयः पवमानम् मधुस्तुतम् अभिगिरासमस्वरन् अभितारोः अजास्वः पूषायामानियामनि आभक्षत्कन्याः सुनः अयम्पर्दिने घृतन्नपावे मधु आभक्षत्कन्याः सुनः अयन्त आघृणे सुतो घृतन्नपावते सुचि आभक्षत्कन्यासु नः वासो चन्दः कीनाम् पवः स्वसो मधारजा देवेषो रत्रधासि आकलसेषु धावतिः श्येनो वर्म विगाहते अभिद्रोडाकलिक्रजति परिप्रसो मधेनसो सर्जि कलशेषुतः श्येनो न तक्तो अर्षति पवस्व सोमवन्दयन्निन्द्राय मधूमत्तमः असग्रन्थे वीतये वाजयन् दो रसायिव तेषु तासोमदिन्द्रमा शुक्रवायुमा सुक्षद ग्राम्णारुन्ना अभिष्टोतः पवित्रम् सोमगच्छसि ततः सोत्रे सुवीर्यम् येन सुन्ना अविष्टोतः पवित्रमतिगाहते रक्षोहावारभव्ययम् चलन्ति यच्च दूरके भयम् विन्ददिमाभिः पवामानवितजि पवामानसो अर्जनः पवित्रे न वितर्षणिः यः पोता सपूनातुनः यत्ते पवित्रे वितदमन्तरा ब्रह्म तेन पुनीहिनः यत्ते पवित्रमचिमदग्नेतेन पुनीहिनः ब्रह्मसवैः पुनीहिनः उभाभ्याम् देवसमितः पवित्रेण सवेन च माम् पूनीः विश्वदाः विभिष्टम् देवसविदर्वरसिष्ठैः सहभिः अग्नेदक्षैः पुनीहिनः पुनन्तु माम् देवजनाः पुनन्तु वसबोधिया विश्वे देवाः पुनीतमाजातवेदः पुनीहि वा प्रत्याहय स्वप्रश्यङ्गश्वसोपविश्वेभिरंसुभिः देवेभ्य उत्तमम् हभिः उपप्रियम् मणिप्रतम् युवानमाहुतीथम् अगन्मबिभ्रातो नमाह अलायस्य परशुर्नाशतमापस्वदेव सोम आकुञ्जी देवदेव सोम यावभानिरध्येतृषिभिः संवृतम् रसम् सर्वं स भूतमस्वादिश्वधितम् मा करिष्व पापमानीर्य अध्येतृषिभिः तस्मै सरस्वतीदुहे क्षीरम् सक्तिर्मधूतरम् ओ